मार्कण्डेयपुराणम् अध्यायम् एय्टित्रि देवीमाहात्म्यम् अध्यायं देवी त्रि ऋषिरुवाच निगम्यमानं तत्सैन्यमवलोक्यमहासुरः सेनानीश्चिक्षुः कोपाद्ययौ योद्धुमधाम्बिका स देवीं शरवर्षेण ववर्षसमरे सुरः यथा मेरुगिरेशृङ्गं त्वयवर्षेण तोयदः तस्य चित्त्वा तदो देवी लीलयैव शरोत्करान् जघानतुरगान् बाण्णायुर्यन्धारं चैव छिच्छेद च धनुःसद्योध्वजं चादिसमुच्छ्रितं विव्याधैव गात्रेषु छिन्नधन्वानमाशुगैः सच्छिन्नधन्वा धन्वाविरधो हदाश्वो हदसारथिः अभ्यधावदतां देवीं खड्गचर्मधरो सुरः सिंहमाहत्य तीक्ष्णधारेण मूर्धनि आजखानभुजे सव्ये देवीमप्यधिवेगवान् तस्य खड्गो भुजं प्राप्य पफाल नृपनन्दन ततो जग्राकशूलं स कोपादरुणलोचनः चिक्षेप च भद्रकाल्यां महासुरः जाज्वल्यमानं तेजोभिविबिम्बमिवाम्बराद दृष्ट्वा तदापदच्छूलं देवी शूलममुञ्जद तच्छूलं शदधा तेन निदं स च महासुरः हदे तस्मिन् महावीर्ये महिषस्य च मुपदौ अजगामगजारूढश्चामरस्त्रिदशार्दनः सोऽपि शक्तिमुमोच्चाधदेव्यास्तामम्बिका धृतं हुङ्काराभिषदां भूमौ पादयामास निष्प्रभां भग्नां शकृं निपतिदां दृष्ट्वा क्रोधसमन्वितः शिक्षेप चामरशूलं बाणैस्तदपि साक्षिनद तदसिंहसमुत्पत्त्य गजगुम्भान्तरे स्थितः बाहुयुद्धेन युधे तेनोच्चैस्त्रिदशाणा युधायमानो तस्तौ दु गदौ युयुधा तेदि संरब्धौ प्रहारैरादि दारुणैः तदो वेगत्खमुत्पत्य निपत्यज मृगारिणा करप्रहारेण शिरश्चामरस्य पृथक्कृतम् उदग्रश्चरणे देव्या शिला वृक्षादिभिर्हतः दन्तमुष्टितलैश्चैव करालश्च निपातितः देवी क्रुद्धा गदा पादैश्चूर्णयामास चोद्धतं वाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्तकम् उग्रास्यमुग्रवीर्यं च तथैव च महाहनुं त्रिनेत्रा चत्रिशूलेन जखान परमेश्वरी बिडालस्यासिना कायात् पादयामास दुर्धरं दुर्मुखं चोभौ सरैर्निन्येयमक्षयं कालं च कालदण्डेन कालरात्रिरपादयत् अग्रदर्शनमत्युघ्रैर्खड्गपादैरताडयद असि नैवासिलोमानमच्चिनत्सारणोत्सवे गणैः सिंहेन देव्या च जयक्ष्वेडाकृतोत्सवैः एवं संक्षीयमाणे दुःस्वसैन्ये महिषासुरः महिषेण स्वरूपेण त्रासयामासतान् गणान् कांश्चित्तुण्डप्रहारेण कुरक्षेपैस्तथापरान् लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान् वेगेन कांश्चिदपरान् नादेन भ्रमणेन च निःश्वासपवने नान्यान् पादयामास भूतले निपात्यप्रमदानीकमभ्यथा वदसोऽसुरः सिंहं हन्तुं महादेव्य कोपं चक्रे तदोऽम्बिका सोऽपि कोपान् महावीर्य कुरक्षुण्णमहीतलः शृङ्गाभ्यां पर्वदानुच्चै चिक्षेप च ननादच वेगभ्रमणविक्षुण्णा महीतस्य व्यशिर्यद लाङ्गुलेना हतश्चाब्धिप्लवयामासः धृतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घना श्वासा निलास्तादशो निभे दुर्नभसोचलाः यदि क्रोधसमाध्मादमापतान्तं महासुरं दृष्ट्वा सा चण्डिकाकोपं तद्वधाय तदाकरोद सा क्षिप्त्वा तस्य वैपाशं तं बबन्धमहासुरं तत्याजमाहिशं रूपं सोऽपिबद्धो महामृधे तदसिंहो भवत्सद्यो सद्यो यावत् तस्याम्बिकाशिरः चिनति तावत् देवी चिच्छेदसायकैः तं खड्गचर्मणा सार्धं तं चकर्ष जगर्जच्च देवी खड्गेन निरकृन्तद तदो महासुरो भूयो माहिषं वपुरास्थितः तथैव क्षोभयामासत्रैलोक्यं सचराचरम् ततः क्रुद्धा जगन्मादा चण्डिकापानमुत्तमं पपौ पुनः पुनश्चैव जहासारुणलोचनां ननर्दचासुरसोऽपि बलवीर्यमदोद्धतः विषाणाभ्यां चिक्षेप चण्डिकां प्रतिभूधरान् साचतान च तान् प्रसितांस्तेन चूर्णयन्ती सरोत्करैः उवाच तं मधोद्धूतमुखरागाकुलाक्षरं देव्युवाच गर्ज गर्जक्षणमूढ मधु यावत् पिबाम्यहं मया त्वयि हदेऽत्रैव गर्जिष्यन्त्याशुदेवताः ऋषिरुवाच यवमुक्त्वा समुत्पत्य सारूढा महासुरं पादेना क्रम्य कण्ठे च शूलेनैनमताडयद तदत्सोऽपि पदाक्रान्तस्तया निजमुखात् तदः अर्धनिष्क्रान्त एवासीदेव्या वीर्येण संवृतः अर्धनिष्क्रान्त एवा सौ युध्यमानो महासुरः तया महासिना देव्या शिरच्छित्वा निपादितः एवं स नाम ससैन्य ससुहृद्गणः त्रैलोक्यं मोहयित्वा दुःखया देव्या विनाशितः त्रैलोक्यस्थैस्तदा भूतैर्महिषे विनिपादिते जयेत्युक्तं ततः सर्वैः सदेवासुरमानवैः ततोहाकृतं सर्वं दैत्यसैन्यं ननाश्यतद् प्रहर्षञ्च परं सकला देवता गणाः तुष्टुवुस्तां सुरादेवीं सह दिव्यैर्महर्षिभिः जगुर्गन्धर्वपदयो नृतुश्चाप्सरो गणाः यदि श्रीमार्कंडेयपुराणे सवर्णिव दी महात्म्ये महिषासुरवधो नामशीतितमोध्याय ओम।